हरि ओम् श्रीसीतारामचन्द्राभ्य नमः अथ श्रीम अध्यात्मरामायणे बालकाण्डे चतुर्थः सर्ग श्रीमदेव उवाच कदाचित् कौशिकोऽभ्याङ्गात् अयोध्याम् जल न प्रभे द्रष्टुम् रामं परात्मानम् प्रातम् ज्ञात्वा समायया द्रष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु वसिष्ठेन समागम्य पूजयित्वा यथाविधि अभिवाद्य मुनिं राजा राञ्जलिर्भक्ति नम्रधी कृतार्थोऽस्मि मुनिं राजम् तदागमनकारणात् तद्विधा यद्गृहम् यान्ति सम्पदः यदर्थम् आगतो तम् ब्रूहि सत्यं करोमि तत् विश्वामित्रोऽपि प्रीतः पत्युवाच महामतिः अहं पर्वणितं प्रापे दृष्ट्वा यष्टुं सुरान् पितृं यदारभे तदा रीत्या विघ्नं कुर्वन्ति नित्यशः मारीच्च सुबाहुश्च अपरे नुचरास्तयो अत तयोर्वदार्थाय ज्येष्ठं रामं प्रयच्छ मे लक्ष्मणेन स भ्रात्रा तव श्रेयो भविष्यति वसिष्ठेन सा मन्त्र्य दीयताम् यदि रोचते पृच्छ गुरुमे कान्ते राजा चिन्तापरायणः किं करोमि गुरो रामम् त्यक्तुम् नोत्सहते मनः बहुवर्ष सहस्राते कष्टे नोत्पादिता सुतः चत्वारोमरतुल्यास्ते तेषां रामोऽपि वल्लभ रामस्थितो गच्छति चेत् न जीवामि कथञ्चन प्रत्याख्यातो यदि मुनिः शापं दास्यत् संशय कथं श्रेयो भवेन्मह्यम् असत्यं चापि न स्पृशेत् वसिष्ठ शृणो राजन देवगुह्यम् गोपनीयम् प्रयत्नतः रामो न मानुजोदात् परमात्मा सनातनः भूमिर्भारावताराय ब्रह्मणा प्रार्थितः पुरा स एव दातो भवने कौसल्यायां सवानघन्तु प्रजापति पूर्वम् कश्यपो ब्रह्मण सुतः कौसल्या चादि माता भवन्तो तपोग्रं तेपाथे ते पाठे अग्रम्य विषयो विष्णु पूजा ध्यानैकतत्परो तदा प्रसन्नो भगवान् वरदो भक्तवत्सरः गृणीष्व वरमित्युक्ते त्वं मे भवामल इति त्वया याचितोऽसौ भगवान् भूतभावनः तथेत्युक्त्वाद्य पुत्रस्ति धातो रामस्थ एव हि शेष्यस्तु लक्ष्मणो राजन् रामम् मेवान्वपद्यते जात भरतशत्रुनौ शङ्खचक्र गदाभृत योगमायापि सीतेति जाता जनकनन्दिनी विश्वामित्रोऽपि रामाय अयोजयितुमागतः एतद् गुह्यत मम राजन् न वक्तव्यम् कदाचनः अथ प्रीते न मनसा पूजयित्वा कौशिकम् प्रेषयश्वरमानाथम् राघवं स लक्ष्मणम् पदिष्ठेनैव मुक्तः राजा दशरथस्तदा कृतकृत्यवात्मानम् मेन्द्रे प्रमुदिनान्तरः आहूय राम रामेति लक्ष्मणेति च सादरम् आलिङ्ग्य मूर्ध्यवग्राय कौशिकाय समर्पय ततो तिहृष्टो भगवान् विश्वामित्र प्रतापवान् आशीर्भि अभिनन्द्याथ आगतो राम लक्ष्मणो गृहीत्वा चापतूणेर् बाण खड्गधरो ययो किञ्चिद्देशम् अतिक्रम्य रामम् आहूय भक्तितः ददौ बलां जातिबलां विद्ये द्वे देव निर्मिते ययोर्ग्रहेण मात्रेण क्षुत्पा खुछ क्षुच्छामादीनजायते तथ उत्तीर्य गङ्गा ते ताटकवनमागमन् विश्वामित्रसदाप्रह रामं सत्यपराक्रमम् अत्रास्ति ताटका नाम राक्षसी कामरूपिणी बाधते लोकमखिलम् दही अविचारयन् तथेति धनुराधाय सगुणं रघुनन्दनः टङ्कारम् अकरोत् तेन शब्दे न पूरयन् वनं तच्छ्रुत्वा स ताटक घोररूपिणी क्रोध सम्मूर्छिता रामम् अभि दुर्द्रावमे भवेत् तभि केन शरेणाशु ताडयामास वक्षसि पपाते विपिने घोरा भवन्ती रुधिरं बहु ततो सुन्दरी यक्षि सर्वाभरणभूषिता शापात् पिशा प्राप्ता मुक्ता रामप्रसादतः नत्वा परिक्रम्य गतारामाज्ञया दिवम् ततो तिरुष्टे परिद्रव्यमम् मूर्ध्यन्यवग्राय विचिन्त्य किञ्चित् सर्वाश्रयालम् सरस्य मन्त्रम् प्रीत्याभि रामाय दतो मुनीन्द्र इति श्रीमदध्यात्मरामायणे उमामहेश्वरसुवादे बालकाण्डे चतुर्थः श्री सीतारामचन्द्र अर्पणमस्तु